मार्कण्डेयपुराणम् अध्यायं 32 टु मदालसोवाच अतः परं शृणुष्वेमं पुत्रभक्त्या यदा हृदं पितॄणां प्रीतये यद्वा वर्ज्यं वा प्रीतिकारकं मांसं पितॄणां तृप्तिश्च हविष्यान्नेन जायते मासद्वयं मत्स्यमांसायस्तृप्तिं यान्ति पितामहाः त्रीन्मासान्हारिणां मांसं विज्ञेयं पितृतृप्तये चतुर्मांसां स्तु पुष्णादि शशस्यपि शिदं पितृन् चागुणं पञ्च वै मासान् षण्मासान् ह्यूकरामिषं च गलं सप्त वै मासा नैणे यञ्जाष्टमासिकीं करोति तृप्तिं नव वै रुरोर्मां सं गवयस्यामिषं तृप्तिं करोति दशमासिकीं तथैकादशमां संस्तु औरभ्रं पितृतृप्तिदं संवत्सरं तथा गव्यं पयः पायसमेव वाध्रीणसामिषं लौहं कालशाकं तथा मधु दौहिशमच्चान्यवुलोद्भव अनंता वै प्रयृप्ति गौरी सुतस्थातृण नात्र सन्देह पुत्रका। श्यामाकराजश्यामाकौ तद्वच्चैव प्रसातिकाः निवारा पौष्कलाश्चैव धान्यानां पितृतृप्तये यवव्रीः स गोधूमतिला प्रियं वर्ज्या निष्पावाश्चादिशोभनाः वर्ज्यामर्कटकाश्राद्धे राजमाशास्तथा नवः विप्राशिका मसूराश्च श्राद्धकर्मणि गर्हिताः लशूनं गृञ्चनञ्चैव पलाण्डं पिण्डमूलकं करम्भं यानि चान्यानि हीनानि रसवर्णतः गान्धारिकमलाबूनि लवणान्यूशराणि च आरक्ता येच च निर्यासाः प्रत्यक्षलवणानि च वर्ज्यान्येतानि वैश्राद्धे यच्च वाचा न शेचोत्कोच्चादीना पतिताद्यदुपाजित शुकोधम द्रव्यात्रगर् दुर्गंधिफेन लाबू तथ्वादक्र गृप्तिम नक्तं यच्चाप्युपाहृदं यन्न सर्वापचोत्सृष्टं यच्चाभोज्यं निपानजं तद्वर्ज्यं सलिलं ताद सदैव पितृकर्मणि मार्गमाविकमौष्ट्रं च सर्वमैकशफं च यद् माखिषञ्चामरं चैव धेन्वा गोश्चाप्यनिर्दशं पित्रर्थं मे प्रयच्छस्वेत्युक्त्वा यच्चाप्युपाहृदं वर्जनीयं सदा सद्भिस्तत्पयः श्राद्धकर्मणि वर्ज्या जन्तुमदीरुक्षाक्षुधिः पृष्ट तथाग्निना अनिष्ट दुष्टशब्दोऽग्रदुर्गन्धा चात्रकर्मणि कुलापमानका श्राद्धेव्यायुज्य कुलहिंसकाः नग्नाः पातकिनश्चैव हन्योर्दृष्ट्या पितृक्रियाम् अपमानपविद्धश्च कुक्कुडो ग्रामशोकरः श्वा चैव हन्दिश्राद्धानि यादुधानाश्च दर्शनाद तस्मात् सुसमृद्धो दध्यात्तिलैश्चावकिरन्महीं एवं रक्षा भवेश्राद्धे कृतादोभयोरपि शावसूदकसंस्पृष्टं दीर्घरोगिभिरेव च पतितैर्मलिनैश्चैव न पुष्णाधिपिता महान्वर्जनीयं तथा श्राद्धे तथोदख्याश्च दर्शनं मुण्डशौण्डसमाभ्यासो यजमानेन या यादराद केशकीडावपन्नञ्च तथाश्वभिरवेक्षितं पुधिपर्युषितं चैव वार्ताख्यभिशवांस्तथा वर्जनीयानि वैश्राद्धे यच्च वस्त्रानिलाहतं श्रद्धया परया दत्तम् पितॄणां नामगोत्रतः नाम गोत्रतः हा। यदा हारस्तु ते जातास्तदा हारत्वमेदि तद् तस्मात् श्रद्धावदा पात्रे यच्छस्त्रं पितृकर्मणि यथावच्चैव दातव्यं तृप्तिमिच्छदा योगिनश्च सदा श्राद्धे भोजनीया विपश्चिदा योगाद्धाराहि पूजयेत् सदा ब्राह्मणानां सहस्रेभ्यो योगित्वग्राशनी यदि यजमानञ्च भोक्तृंश्च नौरिवाम्भसि तारयेद् पितृगाधास्तथवात्र गीयन्ते ब्रह्मवादिभिः या गीताः पितृभिः पूर्वमैलस्यास्येन्महीपदेहे कदा न सन्तदा वघ्र कस्यचिद्भविता सुतः यो योगि भुक्तशोषणो भुवि पिण्डं प्रदास्यति गयाया मधवापिण्डं खड्गमांसं महाहविः कालशाकं तिलाढ्यं वा कृसरं मासतृप्तये वैश्वदेवं च सौम्यञ्च खड्गमांसं परं हविः विषाणवर्ज्य खड्गाप्त्या आसूर्यं चाश्नुवामहे दध्या श्राद्धं त्रयोदश्यां मकासुच च यथाविधि मधु सर्पि समायुक्तं पायसं दक्षिणायने तस्मात् सम्पूजयेद्भक्त्या स्वपितॄन् पुत्रमानवः कामानभीप्सन् सकलान् पापाच्चात्मविमोचनं वसून् रुद्रांस्तथादित्याक्षत्रग्रहतारकाः प्रीणयन्ति मनुष्याणाम् पितरशाद्धतर्पिताः आयुःप्रज्ञां धनं विद्यां स्वर्गं मोक्षं सुखानि च प्रयच्छन्ति तथा राज्यं पितरशाद्धतर्पिताः ये दत्ते पुत्रकथितं श्राद्धकर्म यथोदितं काम्यानां श्रूयतां वत्स श्राद्धानां तिथिकीर्तनम् इति श्रीमार्कण्ठेयपुराणे श्राद्धकल्पो नाम द्वात्रिंशोऽध्यायः ओ